ब्रह्माण्डपुराणं मध्यभागं अध्यायं 53 त्रि सगरचरितं जैमिनिरुवाचा तेषु तत्र निविष्टेषु वासवेन प्रचोदितः जहारं तुरगं वायुस्तत्क्षणेन रसातलम् अदृष्टमश्वं तैः सर्वैरपहृत्य सदा गतिः अनयत्तत्पथा राजन्कपिलस्यान्तिकं मुनेः तदः समाकुलाः सर्वे विनष्टेष्वे नृपात्मजाः परीत्य वसुधां सर्वां प्रमार्गन्धस्तुरङ्गमम् विचित्य पृथिवीं ते दुः स पुराचलकाननाम् अपश्यन्तो यज्ञपश्युं दुःखं महदवाप्नुवन् ततो योध्यां समासाद्य ऋषिभिः परिवारितां दृष्ट्वा प्रणम्य पितरं तस्मै सर्वं न्यवेदयन् परीत्य पृथ्वीमस्माभिर्निविष्ठे वरुणालये रक्ष्यमाणोऽपि पश्यद्भिक् केनापि तुरगो हृतः इत्युक्तस्तैरुषा विष्ठस्तानुवाच नृपोत्तमः प्रयास्यध्वमधर्मिष्ठाः सर्वेनावृत्तये पुनः कथं भवद्भिर्जीवद्भिर्विनष्टो वै धरात्मभिः तुरगेण विना सत्यं नेहागमनमस्ति वः तद समेत्य तस्मात् ते सप्रयाताः परस्परम् ऊचूर्न दृश्यतेऽद्यापि तुरघः किं वसुद विचितास्म सैलवनकना न चा दृश्य देवाजी समारभ्य न वर्धि तस्दे विभज्य रवात्वा पादालं विविशाम तुर इति कृत्वा मतिं सर्वे सागरा क्रूरनिश्चयाः निच्छोर्भूमिमम्बोधेस्तडादारभ्य सर्वतः तैः कन्यमानावसुधाररासभृशविह्वला चुक्रुश्युश्चापि भूतानि दृष्ट्वा तेषां विचेष्टितम् तदस्ते भारदं खण्डं कात्वा संक्षिभ्य भूतले भूमेर्योजनसाहस्रं योजयामासुरं बुधौ आपातालतलं ते दु कनन्दो मेदिनीतलं चरन्दमश्वं पादाले ददृश्योर्नृपनन्दनाः सम् प्रहृष्टास्ततः सर्वे समेत्यज समन्तदः सन्तोषाजखसुखे जिन्ननृतुश्च मुदान्विताः ददृशुश्च महात्मानं कपिलं दीप्ततेजसं वृद्धं पद्मासनासीनं नास्ग्रन्यस्तलोचनम् हृज्वायत शिरोग्रीवं पुरो विष्टब्धवक्षसं स्वतेजसाभिशरदा परिपूर्णेन सर्वतः प्रकाश्यमानं परितो निवादस्तप्रदीपवद स्वान्दप्रकाशिताशेषविज्ञानमयविग्रहम् समाधिगतचित्तूनिभृताम् भोधिसन्निभम् आरुढयोगं विधिवध्येय संलीनमानसम् योगीन्द्रप्रवरं शान्तं ज्वालामालमिवानलं विलोक्य तत्र तिष्ठन्तं विमृशन्तः परस्परम् मुहूर्तमिव ते राजन्सध्वसं परमं सागरा कालचोदिताः सागराकालचोदिताः परिव्रोर्दुरात्मानकपिलं मुनिसत्तमं ततस्तं परिवार्योचुश्वोरोऽयं नात्रसंशयः अश्वकर्ता तदोह्येष वध्योऽस्माभिर्दुराशयः तं प्राकृतवदासीनं ते सर्वे हदबुद्धयः आसन्नमरणाश्चक्रोर्धर्षितं मुनिमञ्जसा जैमिनिरुवाच तदो मुनिरदीनात्मा ध्यानभङ्गप्रदर्शितः क्रोधेन महदाविष्टश्चुक्षुभे कपिलस्तदा प्रचचालदुराधर्षो दर्शितस्तैर्दुरात्मभिः व्यजृम्भद च कल्पान्धे मरुद्भिरिव चानलः तस्य चार्णवगम्भीराद्वपुषक् कोपपावकः दिधक्षुरिवदालाल्लोकान् सां कर्षणोऽनलः शुशुभे उन्मीलयत उन्मीलयत्तदा नेत्रे वह्निचक्रसमद्विधिः तदाक्षिणीक्षणं राजन्राजेदाम् पूर्व सुभृशारुणे पूर्वसंव्यासमुदिदौ पुष्पवन्दामिवाम्बरे ततोऽप्युद्वर्तमानाभ्यां नेत्राभ्यां नृपनन्दनान् अवैक्षत च गम्भीरकृतान्धकालपर्यये क्रुद्धस्य तस्य नेत्राभ्यां सहसा पावकार्चिषः निश्चेरुरभिलो दिक्षु कालाग्नेरिव सन्तताः स धूमकवलोदघ्रास्फुलिङ्गौकमुजोमुहुः मुनिक्रोधानलज्ज्वालासमन्ताध्यानशुर्दिशः व्यालोदरौग्रकुहराज्वालास्तनेत्र निर्गताः विरेजुर्निभृताम्बोधेर्वडवाग्नेरिवार्चिषः क्रोधाग्निःसुमहाराज्वाला व्याप्तदिगन्धरः दग्धांश्चकारतान् सर्वानावृण्वानो नभस्थलम् सशब्दमुद्भ्रान्तमरुत्प्रकोपविवर्तमानानलधूमजालैः मही रजोभिश्च निदान्तमुद्धतैः समावृतं लोकमभूद्भृशादुरं ततः स वन्निर्विलिखन्निवाभिधसमिरवेगाभिहदाभिरम्बरम् शिखाभिरुर्वीश सुतानशेषदो ददाह सद्यः सुरविद्विषस्तान् मिषतः सर्वलोकस्य क्रोधाग्निस्तमृदेहयं न सागरा पापचेतस जज्वलुस्ह साो नीरस इव दृष्टुन सागराणुरात्मुवंद विस्मार ऋषि अहो दारुणपानां विपापो न चिरायितः दुरन्धः खलु लोकेस्मिन्नराणामसदात्मनां यदि मे पर्वताकारा नृशंसा क्रूरबुद्धयः युगपद्विलयं प्राप्ता सहसैव तृणाग्निवद उद्वेजनीया भूदानां सद्भिरत्यन्तगर्हिताः आजीवान्तमिमेहर्तुदिष्ट्या संक्षयमागताः परोपतापि नितरां सर्वलोकजुगुप्सितम् इह कृत्वा शुभं कर्म कः पुमान्विन्दते सुखं विक्रोश्य संप्रयातास्व सम्प्रयातास्वकर्मभिः ब्रह्म दण्डहदाः पापा निरयं शाश्वतीसमाः तस्मात् सदैव कर्तव्यं कर्म पुंसां सुरतश्च परित्याज्यमितरल्लोकनिन्दितं कर्तव्यश्रेयस्ये यत्नो यावज्जीवं विजानदा न चरेत् जीवनं यतः अनित्ययं सदा देहशपदश्चादिचलाः संसारश्चादिनिस्सारस्तत्कथं विश्वस्येद्बुधः एवं सुरमुनीन्द्रेषु कथयत्सु परस्परं मुनिक्रोधेऽन्धनीभूता विनेषु सगरात्मजाः निदेखा सहसा भुवं विष्टभ्य भस्मना भुवंब्विष्ट्यस्म अवापुर्नर सदसागराकर्म सागरा स्थानशेषेण दग्धवा तक्रोधजो नल क्षण नखिला नुद्यदो। दब्धुम्चसा भयभीतादेवास्तवुस्ते महात्मा क्रोधाग्निशमनाथिश्रीब्रह्मांडे महापुराणे वायुप्रोक्त मध्यम भगे तृतीय सागर कुपादिते सागरा विनाशो नाम पंचशतम ओम।